अथ पञ्चाधिकशततमः सर्गः ततः पुरुषसिंहानाम् मृतानाम् तैः सुहृद्गणैः शोचतामेव रजनी दुःखेन रजन्याम् सुप्रभातायाम् भ्रातरस्ते सुहृद्धृताः मन्दाकिन्याम् हुतम् जप्यम् कृत्वा राममुपागमन् तूष्णीम् ते समुपासीना न भरतस्तु सुहृन्मध्ये रामम् वचनमब्रवीत् सान्विता मामिका माता दत्तम् राज्यमिदम् मम तद्ददामि तवैवाहम् भुङ्क्ष्वराज्यमकण्टकम् महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे दुरावरम् त्वदन्येन राज्यखण्डमिदम् गतिम् खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः अनुगन्तुम् न शक्तिर्मे गतिम् तव महीपते नित्यशस्तस्य यः परैरुपजीव्यते रामतेन तु दुर्जीवम् यः परानुपजीवति वृक्षः पुरुषेण विवर्धितः ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः स पुष्पितो भूत्वा फलानि न विदर्शयेत् सताम् नानुभवेत् प्रीतिम् यस्य हेतोः प्ररोपितः एषोपमा महाबाहो तदर्थम् वेत्तुमर्हसि यत्र यत्रत्वमस्मान वृषभो भर्ता भृत्यान्नशाधिः श्रेणयस्त्वाम् महाराज पश्यन्त्वग्र्याश्च सर्वशः प्रतपन्तमिवादित्यम् राज्यस्थितमरिन्दमम् तथानुयाने काकुत्समत्ता नर्दम् तु कुञ्जराः अन्तःपुरगता नार्यो नन्दम् सुसमाहिताः तस्य साध्वनुमन्यन्त नागरा भरतस्य वचः श्रुत्वा प्रत्यनुयाचतः तमेवम् दुःखितम् प्रेक्ष्य विलपन्तम् यशस्विनम् रामः कृतात्मा नात्मनः कामकारो हि पुरुषो यमनीश्वरः इतश्चेतरतश्चैनम् कृतान्तः परिकर्षति सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः संयोगाविप्रयोगान्ता मरणान्तम् च जीवितम् यथा फलानाम् पक्वानाम् नान्यत्र पतनाद्भयम् एवम् नरस्य जातस्य नान्यत्र मरणाद्भयम् जीर्णं यथागार दृढ़स्थूम जीर्णम भूत्पीदीदा ज्युवशंगता अत्येती रान प्रतिवर्त या पूर्णम स मुद्रमुदारणवरात्र गतिषा आयूं शिक्षपय्याशु जलमीवांशव आत्मानमनुशोचत्वम् किमन्यमनुशोचसि आयुस्तु हीयते यस्य स्थितस्यास्य गतस्य च सहैव मृत्युर्व्रजति सः मृत्युर्निषीदति गत्वा सुदीर्घमध्वानम् सः मृत्युर्निवर्तते गात्रेषु बलयः प्राप्ता श्वेताश्चैव शिरोरुहाः जरया पुरुषो जीर्णः किम् हि कृत्वा प्रभावयेत् नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते हनी आत्मनो नावबुध्यन्ते मनुष्याजीवितक्षयम् हृष्यन्त्यृतमुखम् दृष्ट्वा नवम् नवमिवागतम् ऋतूनाम् परिवर्तेन ना प्राणिनाम् प्राणसङ्क्षयः यथा काष्ठम् च काष्ठम् च समेयाताम् एवम् भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि समेत्यव्यवधावन्ति ध्रुवो ह्येषाम् विना भवः नात्र कश्चिद्यथाभावम् प्राणी समतिवर्तते तेन तस्मिन्न सामर्थ्यम् प्रेतस्यास्त्यनुशोचतः यथा हि सार्थम् गच्छन्तम् ब्रूयात् कश्चित् पृष्ठतो हा, भवतामिति एवम् पूर्वैर्गतो मार्गः पितृपैतामहैर्ध्रुवः तमापन्नः कथम् शोचेद्यस्य नास्ति व्यतिक्रमः वयसः स्रोतसो वा आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजा स्मृताः धर्मात्मा शुशुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः धूतपापो स्वर्गम् पिता नः पृथिवीपतिः भृत्यानाम् भरणात् परिपालनात् अर्थादानाच्च धर्मेण पिता न स्त्रिदिवम् गतः कर्मभिस्तु शुभैरष्टैः क्रतुभिश्चाप्तदक्षिणैः स्वर्गम् दशरथः पिता नः पृथिवीपतिः इष्ट्वा उत्तमम् चायुरासाद्यः स्वर्गतः पृथिवीपतिः आयुरुत्तममासाद्य भोगानपि च राघवः न स शोच्यः ता पिता तातः स्वर्गतः सत्कृतः सताम् स जीर्णमानुषम् तु नैवम् विधः कश्चित् त्वद्विधो मद्विधश्चापि श्रुतवान् बुद्धिमत्तरः एते बहुविधाः शोका विलापरुदिते ददा वर्जनीया हि धीरेण सर्वावस्थासु धीमता सस्वस्थो स्वस्थो भवमाशोको यात्वा चावसताम् पुरीम् तथा पित्राणि युक्तोऽसि वशिनावदताम् वरा यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा तत्रैवाहम् करिष्यामि पितुरार्यस्य शासनम् न मया शासनम् तस्य त्यक्तुम् न्याय्यमरिन्दम सत्त्वयापि सदा मान्यः समै बन्धुः सरः पिता तद्वचः पितुरेवाहम् सम्मतम् धर्मचारिणाम् गुरुवर्तिना भवितव्यम् न रव्याघ्रपरलोकम् जिगीषत आत्मानमनुतिष्ठत्वम् स्वभावेन नरर्षभा निशाम्यतु शुभम् वृत्तम् पितुर्दशरथस्य नः इत्येवमुक्त्वा वचनम् महात्मा पितुर्निदेशप्रतिपालनार्थम् यवीयसम्भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विर राम रामः शे श्रीमद् रे वाल्मीक आदि का्योध्या पंचाधिकम ता सर्ग